श्रीहरये नमः नवमस्कन्तः अथ प्रथमोऽध्यायः राजोवाच मन्मन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च योऽसौ सत्यव्रथो नाम राजर्षे द्रविढेश्वरः ज्ञानं योतीतकल्पाते लेभे पुरुषसेवया स वै विवस्तः त्वत्तस्तस्य श्च इश्वा प्रमुखा नृपाः तेषां वंशं पृथक् ब्रह्मन् वंशानुचरितानि च कीर्तयस्व महाभाग नित्यं शुश्रूषतां हिनः ये भूताये ये भविष्याश्च भवन्ति अत्यधनाश्च ये तेषां नः सर्वेषां वद सूत उवाच एवं सदसे राज्ञां सदसि ब्रह्मवादिनां पृष्टप्रवो पृष्टप्रोवाच भगवान् सुखः परमधर्मवित् श्रूयता मानवो वंश प्राचुर्येण परन्तप न शक्यते विस्तरतो वक्तुं वर्षसतैरपि परावरेषां भूतानाम् आत्मा यः पुरुषः परः स एवासीदितं विश्वं कल्पान्ते अन्यन्न किञ्चन तस्य नाभेसमभवत् पद्मकोशो हिरण्मयः तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुरानः मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः दाक्षायण्यां तथो दिध्यां विश्वस्वानभवत्सुतः तथो ततो संज्ञा मायास भारत श्रद्धायां जनयामास दशः आत्मवान स दुष्टदृष्टकरोषकान् नरिष्यन्तं वृषध्रं च नभगं शकविं विभुः अप्रजस्य मनो पूर्वं वसिष्ठो भगवान् किल मित्रावरुणो यिष्टिं प्रजार्थम् अकरोत् प्रभुः तत्र श्रद्धा मनो पत्नी पोतारं समयाचत दुहित्रर्थम् उपागम्य प्रणिपत्यपयोव्रता प्रेक्षितो द्वयुर्णाहोता ध्यायंस्तत्सुसमाहितः हविशिव्यचरतेन, पशटकारं गृह्णन्विजहा होदुस्तद्व्यचारेण कन्येला नाम साभवत् भगवन् किमिधं जातं कर्म वो ब्रह्मवादिनां विपर्ययं महोकष्टं मैवं स्याद्ब्रह्मविक्रिया यूयं मन्त्रविधो युक्तास्तपसाधक्तभिषाखा कुतः सङ्कल्पवैषम्यम् अनृतं विबुदेष्विव तन्निसंयवचस्तस्य भगवान् प्रपितामहः हो तु व्यतिक्रमं ज्ञात्वा भभाषेरभिनन्दनम् एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिशारतः तथापि स धयिष्यते सुप्रजास्त्वं स्वधेजसा एवं व्यवसितो राजन् भगवान् स महायसाख अथौ क्षीतादिपुरुषम् इलयाः पुंस्त्वकाम्यया तस्मै कापरं तुष्टो भगवान् हरिरीश्वरः तथा विलाभव तेन सये गता महाराज विचरन् मृगयां वने वितः करिपयामाद्यै अश्वम् जगामदिशमुत्तरान् सकुमारो वनं मेरो अधस्तात्प्रविशेषः यत्रास्ते भगवान् सर्वो रममाणसहोमयं तस्मिन् प्रविष्टये वासौ शुद्ध्युं नः परवीरः अपश्यत् स्त्रियमात्मानम् अश्वं च वढवां तथा तदुनुघ सर्वे आत्मलिङ्गविपर्ययं दृष्ट्वा विमनसो भूवन वीक्षमाणाः परस्परं राजोवाच कथमेवं गुणो देशकेन वा भगवन् कृतः प्रसन्नमेनं समाक्षस्व परं कौतूहलं हिनः श्रीसुकौ वाच एकधा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः दिशो वितिमिराभास कुर्वन्तः समुपागमन् तान् विलोक्याम्बिका देवी विवासा व्रीडिदा भृशं भर्तुरङ्गात् ऋषयोऽपि तयोर्वीक्ष्य प्रसंगं रममाणयोः निवृत्ता प्रययुस्तस्मात् नरनारायणाश्रमं तदितं भगवानाः प्रियाय प्रियकाम्यया स्थानं यः प्रविशेदे भवेदिति तथ ऊर्ध्वं वनं तद्वये पुरुषावर्जयन्ति हे सा च अनुसरसंयुक्ता विचचारवनाध्वनम् अततामाश्रमाभ्यासे चरन्तीं प्रमथोत्तमां स्त्रीभिः परिव्रतां वीक्ष्य शकमे भगवान् बुधः सापितं सकमे शुभ्रो सोमराजु सुतं पतिं स तस्यां जनयामास पुरुरवसमात्मजं एवं स्त्रीत्वम् अनुप्रात शुद्ध्युं मानभोद्रपः संसारस्वकुलाचार्यं वसिष्ठमिति शुश्रुम सतस्य तां दशा दृष्ट्वा कृपया भृसपीडितः सुद्युं न श्वासयन् पुंस्त्वम् उभाधवत शङ्करं ऋषये प्रियमावहन् स्वां च वासं धृतां कुर्वन् इदमागविशां पते मासं पुमांस भविता मासं स्त्री तव गोत्रजः इत्थं व्यवस्थया कामं शुद्धिं नोवतु मेदिनीम् आचार्यानुग्रहात् पालयामास जगते नाभ्यनन्दन् स्मतं प्रजाः तस्य उत्कलघयो राजन् विमलश्च सुतास्त्रयः दक्षिणापतराजानो बभूवधर्मवत्सलाः ततः परिणते काले प्रतिष्ठानपतिः प्रभुः पुरूरवस उसृश्चघां पुत्राय गतो वनम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्ते इलोवाख्याने प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज के जय